अथ त्र्यशीतितमः सर्गः राघवश्चापि विपुलम् तम् राक्षसवनौकसा श्रुत्वा सङ्ग्राम निर्घोषम् जाम्बवन्तमुवाचः सौम्य नूनम् हनुमता कृतम् कर्मसु क्षिप्र वृक्षपते तस्य अपि श्रेष्ठस्य युध्यतः वृक्षराजस्तथेत्युक्त्वा स्वेनानीकेन संवृतः आगच्छत् पश्चिमम् द्वारम् हनूमान्यत्र वानरः ददर्श रक्षपतिस्तदा वानरैः कृतसङ्ग्रामैश्वसद्भिरभिसंवृतम् दृष्ट्वा पथि हनूमांश्च नीलमेघनिभम् भीमम् सन्निवार्यवर्तत वर्तता तेन सह सैन्येन सन्निकर्षं महायशाः शीघ्रमागम्य रामाय दुःखितो वाक्यमब्रवीत् समरे युध्यमानानामस्माकम् प्रेक्षताम् च सः जघानरुदतीम् सीतामिन्द्रजिद्रावणात्मजः उद्भ्रान्तचित्तस्ताम् दृष्ट्वा विषण्णोऽहमरिन्दमा तदहम् भवतो वृत्तम् विज्ञापयितुमागतः तस्य तद्वचनम् श्रुत्वा राघवः निपपात तदा भूमौ छिन्नमूल इव तम् भूमौ देव सङ्काशम् पतितम् दृश्य राघवम् अभिपेतुः पद्मोत्पलसुगन्धिभिः प्रदाहन्तमसंहार्यं सहसाग्निमिवोत्थितम् तम् लक्ष्मणोऽथ बाहुभ्याम् परिष्वज्य सुदुःखितः उवाच राममस्वस्थम् वाक्यम् हेत्वर्थसंयुतम् शुभेवर्त्मनि तिष्ठन्तम् त्वामार्यविजितेन्द्रियम् अनर्थेभ्यो न शक्नोति च जङ्गमानाम् च दर्शनम् यथास्तेन तथा धर्मस्तेन नास्तीति मे मतिः यथैव स्थावरम् व्यक्तम् जङ्गमम् च तथाविधम् नायमर्थस्तथा युक्तस्त्वद्विधो न विपद्यते यद्यधर्मो भवेद्भूतो रावणो नरकम् व्रजेत् भवांश्च धर्म संयुक्तो नैव तस्य च व्यसनाभावाद् व्यसनम् चागते धर्मो भवत्यधर्मश्च परस्परविरोधिनौ धर्मेणोपलभेद्धर्ममधर्मम् चाप्यधर्मतः यद्यधर्मेण युज्येयुर्येष्वधर्मः प्रतिष्ठितः न धर्मेण वियुज्येरन्नाधर्मरुचयोजनाः धर्मेणाचरताम् तेषाम् तथा धर्मफलम् भवेत् यस्मादर्था विवर्धन्ते येष्वधर्मः प्रतिष्ठितः क्लिश्यन्ते धर्मशीलाश्च तस्मादेतौ निरर्थकौ बध्यन्ते पापकर्माणो यद्यधर्मेण राघवा वधकर्म हतो धर्मः सहतः कम् वधिष्यति अथवा विहितेनायम् हन्यते हन्ति च परम् विधिः सलिप्यते तेन न स पापेन कर्मणा अदृष्टप्रतिकारेण अव्यक्तेनासतासता कथम् शक्यम् परम् प्राप्तुम् धर्मेणारिविकर्षणा यदि सत्स्यात्सताम् मुख्यना, ना सत्स्यात् तव किञ्चन त्वया यदीदृशम् प्राप्तम् तस्मात्तन्नोपपद्यते अथवा दुर्बलः क्लीबो बलम् धर्मोऽनुवर्तते दुर्बलो हृतमर्यादो न इति मे बलस्य यदि चेद्धर्मो गुणभूतः धर्ममुत्सृज्य वर्तस्व यथा धर्मे तथा बले अथ चेत् सत्यवचनम् धर्मः किल परम् तप अनृतम् किम् न बद्धस्त्वया विना यदि धर्मो भवेद्भूत अधर्मो वा परम् तप न स्म हत्वा मुनिम् वज्रीकुर्यादिज्याम्शतक्रतुः धर्मो विनाशयति राघव सर्वमेतद्यथा कामम् काकुत्स्थकुरुते नरः मम का चेदम् मतम् तातधर्मोऽयमिति राघवा धर्ममूलम् त्वया छिन्नम् राज्यमुत्सृजत तदा अर्थेभ्योऽह प्रवृद्धेभ्यः संवृत्तेभ्यस्ततस्ततः क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः अर्थेन हि विमुक्तस्य पुरुषस्याल्पचेतसः विच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे उसरितो यथा सोऽयमर्थम् परित्यज्य सुखकामः पापमाचरते कर्तुम् तदा दोषः यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः यस्यार्थाः स लोके यस्यार्थाः स यस्यार्थाः स च विक्रान्तो यस्यार्थाः स च बुद्धिमान् यस्यार्थाः स महाभागो यस्यार्थाः स गुणाधिकः अर्थस्यैते परित्यागे दोषाः प्रव्याहृता मया राज्यमुत्सृजता धीरयेन बुद्धिस्त्वया कृता यस्यार्था धर्मकामार्थास्तस्य सर्वम् प्रदक्षिणम् अधनेमेन नाथ शक्यो विचिन्वता हर्ष कामच्चर्प्च क्रोधश मोद अर्थ सर्वाण प्रवर्तं नाधिप यश्यय लोकश्चरता धर्मचारिणर्थ स्वयि दृश्य दुर्दीन यथाग्रहा प्रव्रजिते वचने स्थि रक्षसा प्राणै प्रियतरा तवा तद्युल वीर दुखिता कर्मण व्यपन तस्दुत्तिष राघव किमात्मानं नरदूलर्घबाहोधृतव्रता किनमबु्यसे अयमनघत बोदितः प्रियार्थम् जनकसुतानि धनम् निरीक्ष्य रुष्टः सरथगजहयाम् स राक्षसेन्द्राम् आदिकाव्ये युद्धकाण्डे